श्रीमद्भागवत् महापुराणं दशमस्कन्ध असु द्विपञ्चाशत्तमोऽध्यायः द्वारकागमन् श्रीबलरामजी का विवाह तथा श्रीकृष्ण के पास् रुक्मिणिजी का सन्देशा लेकर ब्राह्मण का आना श्रीशोकुवाच इत्थं शोनुगृहीतोऽङ्गकृष्णो नेक्ष्वाकुनन्दनः तं परिक्रम्य संनम्य निश्चक्रामगुहामुखान् सवेक्ष्य क्षुल्लकान् मर्त्यान् पशुन् वेरोज्ज्वनस्पतिन् मत्वा कलियुगं प्राप्तं जगामदिसमुत्तरां तपश्रद्धायितो धीरो निषङ्गो मुक्तसंशयः समाधाय मनः कृष्णे प्राविसन् गन्धमादनं प्रदर्याश्रममाशाद्य नरनारायणालयं सर्वसंशः शान्ततपसा राधयद्धरीम् भगवान् पुनरावृज्य पुरीं यमनवेष्टितां हत्वा निन्ने तदीयं द्वारकां धनं नियमानि धने गोभिर्निभिश्चाचित् चोदितैः आजगां जरासन्ध श्रेयोविं सज्जनीकपः विलोक्य वेगर्भसंसैन्यस्य माधवौ मनुष्यचेष्टामापन्नौ राजन् दुद्रुवतुर्दृशम् विहाय वित्रं प्रचुरम् अभीतौ फिरुभीतवन् त्वद्भ्यां पद्मपलाशाभ्यां चिरतुर्बहुव बहुयोजनम् बहु पलायमानौ तौ दृष्ट्वा माघत प्रहसन् बली अन्वधावदृथानेकैरीसयोरप्रमाणवीं प्रदृत्य दूरं संश्रान्तौ तुङ्गमारुह्यतां गिरिम् प्रवर्षणाख्यं भगवान् नित्यदायत्र वर्षति गिरौ निलीनावाग्याय नाधिगम्य पदं नृप ददाह गिरिमेधोऽभि समन्तादग्निमुसृजन् तदुत्पद्य तरसा दह्यमानतटादुभौ दसैकयोजनो तुङ्गान्निपेतुरिथो भुवि अलक्ष्यमाणौ रिपुणाशानुगेन यदुत्तमौ स्वपुरं पुरन् पुनरायातौ समुद्रपरिखां नृप सोऽपि दग्धा विमृषा मन्वानो बलकेशवौ बलमाकृष्य सोमहन्मग्धान्मागतो ययौ आनर्ताधिपति श्रीमान् रेवतो रेवतीं सुतां ब्रह्मणा भगवानपि गोविन्द उपि ये वैदर्भिस्मकसुतां श्रियोमात्रां स्वयंवरे प्रमत्यतरसा राज्ञशाल्वादिश्चैव चैद्यपक्षगान् पश्यतां सर्वलोकानां तार्क्ष्यपुद्र सुधामिव राजवाच भगवान् भीस्मकं भीष्मकसुतां रुक्मिणीं रुचिराननां राक्षसेन विधानेन उपयेम इति श्रुतम् भगवत्स्रोतुमिक्षामि कृष्णस्यामिततेजस यथामागतसाल्वादिं जित्वा कन्यामुपाहरत् ब्रह्मन् कृष्णकथापुण्यां माभिर्लोकमलापहाः को नु चप्येत शृण्वान् श्रुतज्ञो नित्यनूतनाः